श्रीगणेशप्रभाव स्मृतिः ओमित्यादौ वेदविदोऽयम् प्रवदन्ति ब्रह्माध्यायं लोकविधाने प्रणमन्ति योऽन्तर्यामि प्राणिगणानाम् हृदयस्थस्थम् विघ्नेशम् दुःखविनाशम् कलयामि गङ्गा गौरी शङ्करसन्तोषकमुवृतम् गन्धर्वाणी गीरचरित्रम् सुपवित्रम् यो देवानावादिरनादिर्जगलीशस्तम् विघ्नेशम् दुःखविनाशम् च्छेत्सिद्धिम् यन्मनुजापे कार्याणाङ्गम् तापारम् संश्रुतिसिन्धोर्यद्वेत्ता गर्वग्रन्थैर्यः किल भेत्ता गणराजस्तम् कलयामि न्येऽत्युच्चैर्वर्मजपादौ पूजार्थम् यद्यन्त्रान्तः पश्चिमकोणे निर्दिष्टम् बीजम् ध्यातुः पुष्टिदमाथर्वणवाक्यैस्त्वम् विघ्नेशम् दुःखविनाशम् कलयामि पद्भ्याम् पद्मश्रीमदहृद्भ्याम् प्रत्युषे मूलाधाराम् भोरुहभास्वद्भानुभ्याम् योगी यस्य प्रत्यहमजपार्पणदक्षस्तम् विघ्नेशम् दुःखविनाशम् कलयामि तत्तत्त्वम् यस्य श्रुतिगुरुवाक्यैरधिगत्यज्ञानि प्रारब्धानुभवान् ते निजधामा शान्ता विद्यातत्कृतबोधस्वयै यात्तम् विघ्नेशम् दुःखविनाशम् करयामि ये, ये ये भोगालोकहितार्थाः स कुवर्था ये ये योगास्साध्यसुलोकाः सुकृतार्थाः ते सर्वे सूर्यम् वनुजपतः पुरुषाणाम् तम् विघ्नेशम् दुःखविनाशम् कलयामि धत्वा नित्यम् यस्य पदाव्यम् मुहुरर्थी निद्वैतात्मा खण्डसुखस्याद्धतमोह कामान् प्राप्नोतीति किमाश्चर्यमिदानीम् तम् विघ्नेषम् दुःखविनाशङ्कलयामि हस्तप्रोद्यच्चन्द्रकिशोरम् करवक्त्रम् पुस्ताक्षस्रक्पाश्रुणि स्फीतकराब्जम् शूर्पश्रोत्रम् सुन्दरगात्रम् शिवपुत्रम् तम् विघ्नेशम् दुःखविनाशम् कलयामि सिद्धान्तार्थां सिद्धिगणेशस्तुतिमेलां सुब्रह्मण्याह्वयसूर्युक्ताम् अनुयुक्ताम् उक्त्वा श्रुत्वापेक्षितकार्यम् निर्विघ्नम् मुक्त्वा मोहम् बोधमुपेया तद्भक्तः इति श्रीसुब्रह्मण्ययोगिविरचिता श्रीगणेशमन्त्रप्रभावस्तुतिः